कटक तटल सङ्कल्पवाणी निपुञ्च क्रीडा संसक्त विद्याधरनि करवधू गीत रुद्रापदा नः तारैः रम्बनादैस्तरलित निनदत्तारकारातिकेकी कैलासः सर्वदा पर्वतेन्द्रः यस्य प्राहुस्वरूपम् सकल दिविशदां सार सर्वस्वयोगम् शार्गधन्वा समजनि जगताम् रक्षणे जागरूकः मौर्व्यर्वीकराणामपि च परिवृढभूस्त्रयी स च लक्ष्यम् सोऽव्यादव्याजमस्मान् अशिभनिशम् नाकिनाम् शिल्पिनाक आतङ्का वेगहारी सकलदिविशदामङ्घ्रिपद्माश्रयाणाम् मातङ्का द्युग्रदैत्यप्रकर तनुगलद्रक्तधाराक्तदा धा। कालाराते कराग्रे कृतवसति रुरश्याणशापूणाम् काले काले पुलाद्रिप्रवर्तनयया कल्पितस्नेहलेपः पायान्न पावकार्चिः प्रसरसखमुख पापकन्तानितान्तम् शूलश्रीपादसेवा भज न रसजुषाम् पालनैकान्तशीलः देवस्याङ्काश्रयाः कुलगिरिदुहितुम् नेत्रकोण प्रजार प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण आदत्ते भङ्गितुङ्गैरनिशम् अवयवैरन्तरङ्गम् समोदम् सोमापीठस्य सोऽयम् प्रदिशतु कुशलम् पाणिरङ्गकुरङ्गः कंठ प्रातावसजत कनकमय महा घंटि काोरघोष गो कंठारावरकुंठर भरीद जगच्चक्रवालाल चंड प्रोदंड शृग खबुदिदला स्य वाकः शवयदुशमलम् शाश्वतशाक्वरेन्द्रः निर्युद्धानाम् रुधारा परिमलतरली तरली भूतरोलम्बपाली जङ्कारैः शङ्कराद्रेः शिखर सतदरी पूरयन् भूरि घोषैः शैल प्रतिम पृथुव पु सर्वा विघ्नापहर्त्र शर्वाण्याः पूर्वसूनुः स्व भवताम् स्वस्ति दो हस्ति वक्त्रः यः पुण्यै समजनि शिवयोः श्लाघ्य शूयवाणेज भड़गड़ा भीति भारम भजंते भूया सोयू निशित शरशिखा पाटित क्रौश संसारागा कूपोदर पति समरगस्ता प्रविजित पवनम् तुङ्गतुङ्गम् तुरमुङ्गम् चेलं नीलम् वसानकरदलविलसत् काण्डकोदण्ड दण्डः दंद दंद राग द्वेषादि नानाविध मृगपटले भीदि कृद्भूत भर्ता कुर्वम् आभेडलीलाम् परिलसतुमनकादने मामकीने अम्भोजाभ्यां च रम्भारथ चरणलता द्वन्द्वकुम्भीन्द्र कुम्भैः बिम्बेनेन्दोश्च कम्बोरुपरिविलसता विद्रुमेणोत्पलाभ्याम् अम्भोदेनापि सम्भावितम् उपजनिताडम्बरम् शम्बरारेः संभो संभोगयोग्यं किमपि धनमिदम् सम्भवे सम्भवे नः वेणी सौभाग्य विस्मापित तपनसुताचारुवेणी विलासाम् वाणी निर्धूत वाणी करतलविधृतोदार वीणा विरावान् भी ये निेत्रान्तभङ्गी निरसन निपुणापाङ्ग कोणानुपादे शोणान् प्राणानुदूढ प्रतिनव सुषमान् कन्दलानिन्दुमौले नृतारम्भेषु हस्ताहतमुरज तिमिद्धिम् कृतैरत्युदारैः चित्तानन्दम् विधत्ते सदसि भगवतः सन्ततम् यः स नन्दी चण्डीशाध्यात धान्ये चतुर गुण गण प्रीडित स्वामी प्रसादा प्रमथ परिवृढा पान्तु सन्तोषिणो नः मुक्ता माणिक्यजालैः परिकथितमहासालमालोकनीयम् प्रत्युक्तानर्धरत्नैर् दिशि दिशि भवनैः कल्पितैर्दिक्पदीनाम् उद्यानैरद्रिकन्या परिजनवनिता माननीयै परितम् हृद्यम् हृद्यस्तु नित्यम् मम भुवनपतेः धामसोमार्धमौलेः तम् वैर्यम्भारिरक्न प्रवरविरचितै सम्भृतोपान्तभागम् शुंभत्ग शुचिमणिजय कुंभानप शिप कुंभ संपूर्ण शोभम शिशी सुघटितभरप शुंभ सकल मुनिजन स्वस्थित सैत् न्यस्तो मध्ये सभाया सर विरसत्द पीड़ाभराम पादश कनकमणिमयचुरवलाम वासो रत्न केनाप्यधिक मृदुतरेस्त्रि विस्तृत श्री पीठ पीडा भर नवयत शिव योग स्वैरसंवासयोग्यः आसीनस्याधिपीठम् त्रिजगदधिपतेः अङ्क्रिपीठानुषक्तम् ोडायमानोन्नत नगदशकोद्भासमा दि निखिल लक्षण पक्षी लक्ष्मी संभोग सौख्यं विरचय योच्चापेद शंभ संनी पदकमल संगतस्तुंगशोभे मंगल्यं नग्र सकल सुखगरे ूपुरे पूरयेत् पङ्के शृङ्गारयोनिः सपदि शरभदा नेत्रवन्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यग्रवस्ते किमेतत् शङ्का वित्तम् न अमर परिषदाम् अन्तरम् क्रूरयत्तत् सङ्घातम् चारुजङ्गायुगमखिल पतेः अम्भसाम् सङ्हरिन्नः जानुद्वन्द्वेन मीनध्वज नृवर समुद्गोपमानेन सागम् राजन्तौ करिकरखनगस्तम्भ सम्भावनीयौ ऊहु गौरी कराम्भोरुग सरस समामर्दनानन्दभाजौ चारु दूरीक्रियास्त दुरितमुपचितम् दूरी जन्म करकर परिष्वक्त कल्याण काञ्चीदाम्नः बध्येन दुग्धद्युतिनि चय मुषा चीनपट्टाम्बरेण संविरे शैलकन्या सुचरित परिपाकायमाणे नितम्बे नित्यम् मम निखिल जगत्स्वामिन सोममौरे यत् दिनकरसरुषाकालधौतेन गाढम् यानद्ध स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन उद्दीर्तैः स्वप्रकाशैः मध्यो मिथ्यार्थसध्यम् मम दिशतु सदा सङ्गतिम् मङ्गलाना नाभीचक्रालवालात् नवनव सुषमादोगदश्रीपरितात् उद्गच्छन्ती पुरस्तादुदरपसुम् अतिक्रम्य वक्ष प्रकथनिपि वद्भासते यानि कामम् सा मा सोमार्धमौरेः सुखयतु सततं भिः उपजिदस्पद्धमुद्धामकृत्यम् दक्षरादेः उदूढप्रतिनवम् मणिमालावलीभासमानम् वक्षो भिक्षोभिदाघम् सतत नदिजुषाम् रक्षता दक्षतं नः वामाङ्गे विस्फुरन्त्याः करतलविलसच्चारु रक्तोत्पलायाः कान्ताया वामवक्षोरुहभर शिखरोन्मर्दनव्यग्रमेकम् अन्यान्त्री अप्युदारान् वरपरशुमृगालङ्कृतानिन्दुमौलेः बाहूना बद्ध हे माङ्गल मणिकटकान् अन्तरालोकयामः सम्भ्रान्ताय शिवायाः तिविदयभिया सर्वलोकोपतापात् संविघ्नस्यापि विष्णोः सर्वसमुभयोर्वारण प्रेरणाभ्याम् मध्ये द्वैषङ्कवीयामनुभवति दशाम् यत्र काला करो सोऽयम् सर्वापदाम् शमयतु निजयम् नीलकण्ठस्य कण्ठः हृद्यैरद्रीन्द्रकन्या मृदुदशनपदैः मुद्रितो विद्रुमश्रीः उद्योतम् सम्पदा सञ्चयम् नः कर्णालङ्कारनारामणि निकरनुजा सञ्चयैरञ्चिताया वन्यायां स्वर्णपद्मोदर परिविलसत्कर्णिका विरचय सुखे नासी नासी रुचिरतर भाषमानेचिरतर ऋ संगणीना चंडांशुधा प्रसर निरसन स्पष्ट दृष्टा पदाने भूयास्ता भूत करिबर जिर कर्ण पाशावे भक्ताली सज्जन मिपे कुंडले कुंडले कालव्यवस्था भवति तनुमदाम् यो मुखम् देवतानाम् येषामाहुस्वरूपम् जगति मुनिवरा रुद्राणी वक्त्रपङ्केरुह सततविहार उत्सुकेन्दिन्दिरेभ्यः भ्यस्त्रिभ्यप्रणामाञ्जतिम् उपरचये त्रीक्षणस्य ईक्षणेभ्यः वामं वामा गगाय वदनसरसिजे व्यावलद्वल्लभाय ज्ञानम् व्या अन्यदन्यत् पुनरलिकभवम् वीतनिःशेषसौक्षम् भूयो भूयोऽपि मोदात् निपतदतिदया शीतलम् चूत बाणे दक्षारेरीक्षणानाम् त्रयमपहरदात् आशुतापत्रयम् नह। ये दुम मुग्ध दुति नीचय तिरस्कार निस्तंद्र काश्मीर क्षोद संकल्पित चित्रक भाति नेत्र तस्लोल चिल्ली नट वर तरुणी लंगायाने का फाल देशे विहरतु हृदयम् वीतचिन्तारम् नः स्वामीम् गङ्गामिव अङ्गीकुरु तव शिरसा मामपि त्यर्थयन्ती धन्याम् कन्याम् कराशोः शिरसि वहति किम् न शकारुण्यशाली इत्थम् शङ्काम् जनानाम् जनयदति धनम् कैशिकम् कालमेहच्छायम् भूयादुदारम् त्रिपुरविजयिनः श्रेयसे भूयसे नः कल्पयोग्यैः शिखरि वरसुधा सत्सखी हस्तलूनैः सूनैराबद्धमालावलि परिविलसत् परिहसित सुरावास शैलेन्द्र शृङ्गम् विघटयतु सदा काङ्कटीकम् किरीटम् वक्राकार कलङ्की जडदनुरगमपि अङ्क्रि सेवानुभावात् उत्तम् सत्वम् प्रयातः सुलभदरघृणास्यन्ति न चन्द्रमूलेः तत्सेवन्ताम् जनौघाः शिव शम्भोः मुकुट सुघटितम् मुग्गवीयेयुध्रवाम् कात्या सम्भुल्लमल्ली कुसुमधवलया व्याप्य विश्वम् विराजते वृत्ताकारो विदन्वन् मुहुरपि च पराम् निर्वृतिम् वादभाजा सानन्दम् नन्दि दोष्णा मणिकटगवदा बाह्यमान योः पार्श्वयोराश्रिदान रुद्राणी सत्सखीना मदतरल कटाक्षाञ्जलैरञ्जितारः उद्वेल्लत् बाहुवल्ली विलसन समये चामरान्दोलनीना उद्भूत कङ्कणाली वलय कलकलो ः स्वर्गौ कसुन्दरीणाम् सुललितवपुषाम् स्वामि सेवापराणाम् वैगर्भूषाणि वक्त्राम्बुज परिविगलन् मुग्धगीतामृतानि नित्यम् नृत्वान्युपासे भुज विधुतिपदन्यासभावावलोक प्रत्युद्य प्रीतिमाद्यत प्रमथ नट नटी दत्त सम्भावनानि किमपि विशदताम् व्यञ्जय मञ्जुवीणा स्वारावच्छिन्न दारत्रम् अमृतमिव स्वाद्यमानम् शिवाभ्या नानारागादिहृद्यम् नवरसमधुरस्तोत्र ना जातानुविद्धम् गानम् वीणा महर्षेः कलमतिललितम् चेतो जातप्रमोदम् सपदि विदधति प्राणिनाम् पाणिनीनाम् पाणिद्वन्द्वाग्रजाग्रत् सुरनितरणितस्वर्णतालानुपूरा श्रीय रावेण पाथोधर रवपडुना नादयन्ती मयूरीम् मायूरी मन्दभावम् मणिमुरज भव सिद्ध विद्यादयेभ्यः साध्येभ्यश्चारणेभ्यो मनुदपशुपतज्जातिकीटादिकेभ्यः श्रीकैलास प्ररूढाः तृढविट विमुखाश्चापि ये यम् नित्यम् प्रभाते प्रतिदिवसमिदम् स्तोत्ररत्नम् पठेद्य किं वा भ्रूमस्तदेयम् सुचरितमथवा कीर्तयामः समासार सम्पञ्चातम् समग्रं सदसि बहुमतिम् सर्वलोकप्रियत्वम् सम्प्राप्यायुष्यतान्ते पदमयदि परब्रह्मणु मन्मथारे